षष्ठकाण्डे चतुर्थप्रश्नः प्रारम्भः लघ्ने नवे प्रजापतिः प्रजादृजतता उभयभ्यते सृजत यदुभयज उभयजरि प्रजा एव तद्यजमानसृजते जघनार्धादवजति जघनार्थाद्भिप्रजा प्रजायन्दे स्थविमतो वज्रि हि प्रजा प्रजा यन्दे सम्भ्यन्न वज्ज प्राणामेदाय पर्यावर्तयति यत्पर्यावर्तये ददावर्तः प्रजाग्राहवस्यात् समुद्रम् गच्छस्वाहेत्याहरेदेव दधाद्यन्तरिक्षम् प्रजा प्रजलयेत्क्ष ग्रल प्रजा प्रजायन्दे देवगं सहितारं गच्छस्वाहेत्याहोद एवास्मि प्रजा प्रजलयेत्य रात्रे गच्छ स्वाहेत्याह रामेवास्मि प्रजा प्रजलयेत्यः रात्रेभ्य प्रजा प्रजायन्दे प्राणो गच्छ स्वाहेत्याः प्रजा सेव प्रजा दासु प्राणा बाणो दधा सोम्यं गच्छस्वाहेत्याः सोम्या हि देवतया प्रजा यज्ञं गच्छस्वाहेत्याः प्रजा एव यज्ञया छन्दागुंसि गच्छस्वाहेत्याः पशुभो वै छन्दागुंसि पुशो नैवावृन्ध्येत्या वा पृथिवी गच्छ स्वाहेत्याः प्रजा एव प्रजाता वा पृथिवीभ्यामभयदपरि गृह्णा जनभो दिज्ञं गच्छस्वाहेत्याः प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नं वै ईश्वारं गच्छस्वाहेत्याः प्रजा एव प्रजातास्याम् ष्ठापयति प्राणानाम् वा एषोस्य मनोमेहाद्येत्य प्राणानेव यथा स्थानोर्वा आरब्धस्य हृदयच्छोगमभितमेधि पृथिव्या गो हृदयशोगमुद्वासयेत् पृथिवीगोचात्मये रक्षमश्रुतात्मयेच्छुष्कस्य चात्रस्य च सन्धावत्मासयत् कृभयस्य शान्त्यैन् द्विष्यात् सन्ध्यायेच्छुदेवैनमर्पयति देवा वै यज्ञमाज्ञे त्रेव्यभयं यज्ञमेवारभ्य गृहे तावत् चेतनारब्धास्य यज्ञस्यां विच्छिन् वा गृह्णीया शुत्राणामेव गृह्णादि यो वा ब्राह्मण बहुजा गृह्णां गृह्णेयात्स हि गृहे तमसदेवरे को वसदेवरेर्गृह्णादि पशो देवार्भ्य गृहे त्वापवसदे वन्धिष्ठं गृह्ण्यन्निर्मात्मकास्मात्पशवस्य प्रदेपन्धिष्ठं गृह्णाच प्रतैवास्मै पशुह्णातेन्द्र वृत्मा ृहे तदा सायमेत्यैको सदेवमासीत् कदच्छमुच्य तथा वहन्तीनवहन्तीनां गृह्मादिया एव मेध्या स्वदेवास्तासामेव गृह्णादिनान्तमावहन्तीतीयान्तमावहन्तीयाधिज्ञमधिमन्ये तन्स्थावराणां गृह्णीया करुणगृहे दावै स्थावराय सावराणां गृह्णीया करुणेनास्वेयेत्यमारात्र ैत्याः हविष्कृतानामेव गृह्णातिशत्राणामेव गृह्णात्यनुष्ठभा गृह्णाति सर्वया गृह्णाति चतुष्पदे हत्या गृह्णाति सप्तसंपद्यन्ते सप्तपदाश्च क्परि वशव शक्परि वशो नैवावृन्धेऽस्मै वै लोकायकारः अस्मिन् लोके पशुमान् स्याद्यदावनीये अस्मिन् लोके पशुमान् स्यात्भयोर्म साधयेत्युभयो रेवै लोकय पशुमन्द सर्वमपात्याह यथा यदि रेवे तदाज्ञे ध्वपासयत्येतद्वै यस्यापराजत यदाज्ञे शञ्जदेव यज्ञस्यापराजितन्तदेवै ना उपवासे धियदत् खलु वै यज्ञस्य वितरस्य न क्रियते तदनु यज्ञको रक्षाकृचरन्हङ्नाम् गृह्णादि क्रियमाणमेव तद्यज्ञस्य रक्षसामनवन्नात्परिशेरे यज्ञस्य सन्तत्यै ब्रह्मवादिनोदन्ध्वर्यस्याज्योमपावहरन् सर्वाभ्यो देवताभ्यो भावहरे त्वेत्याः मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याः पितृभ्य एवैतेन करोति देवेत्वा सूर्याय देवेभ्य एवैतेन करोत्येतावदेवै देवतास्ताभ्य एव गुरुसर्वाभ्यो भावहरति पुरावाच प्रवचितावाकमुपाकरोति यावत्येव वाृन्देव्या हृदि यज्ञा वा आव यज्ञमेवाभिवाचिं सृजति छन्दाकन्वाहपुशवै छन्दाकुंसपुशो नैवावन्ध्य गायत्र्या तेजस्कामस्य परिदध्यागत्या पशुकामस्यानुष्ठुभा प्रतिष्ठा कामस्य मञ्चा यज्ञकामस्य विराजानकामस्य क्षणात्मज्ञैश्व वर्णस्य तमसात् धर्यवा भिकृतानां गृह्णादिकारमलमेवासा मपप्लावैदि समुद्रस्य वक्षित्या तस्मादत्यमाना पीयमाना आपो नक्षीयन्तेयो निर्वै यज्ञस्य चार्तावसि देवरेजमसंज्ञानयति यज्ञस्य याथो स्वा देवैनायोजनयैरपाहोतेमजन्नमृतेमा पश्ये दिवा वै तदाह यज्ञिष्ठोमादि यद्युक्षः परिधो निमाष्ट यज्ञो युगर्वम् प्रपद्यते यज्ञकृति देवस्य त्वादविदुःप्रसवै ऋवाणमादत्ते प्रसोद्याश्विनामित्याः देवानाम् पशवो वै सोमा ज्यान उभागुम् शसवनो यदुभागुम् शसवनमभिमे ज्यानमेव पशुश दधातीन्द्रा येन्द्रा यद्वेदिमेत इन्द्रा यि सोम आह्वे देवं च कृत्वा यिषामि देवं चाक्षरापङ्क्यपाङ्ग्रा यज्ञा यज्ञमेव हैषवाजादिश एन्धे भवन्ति य एवं वेदयते सोमादायन्नामजा विवेत्या हैषमै सोमस्य एवं वेद्यामादिग्धन्ति वा वा एष यदु वांशु वा कृष्णक्राक्रा कृष्यन्ते प्राणमेवानुवाहि स्थापयामि तेन तदस्सृच्छामीत्यष्टो कृत्वाी गाहित्रम् राजस्वनम् राजस्वनमेवनाप्नोत्येकादशकृत्वाैष्टञ्जनगोसवनम् मात्यञ्जनमेव सवनं देना ष्टावृष्टौ कृत्वाभिषुत्यं ब्रह्मराजना वदन्ति प्रोया नित्याः वाजैवैनं पवैत वृष्णांशुभ्यामृत्याः पवित्रमसेत्याः देवानां पवित्रेष्येन गृह्णा प्राणमेत्याः सर्वमेवास्माे स्वेन्द्रियेभ्योऽभ्येभ्य पार्थिवेश्व प्राणा वै स्वभव देवास्तेष्वेव परोक्षञ्जो देवेभ्य त्यादित्युत्थाने नृष्टित् प्राणमेवास्यानुगृत्य हन्ति यद्य प्राणे साधयामि प्राणप्राणमेवास्य साधयति षट् वैदिषट्वारेव ेवरेवेदम् भोगे स्म यदि ब्रह्मनादिना वदन्ति स्म त्रयः पुशोनागो हस्तादा पुरुषः देवा वै यज्ञे कुर्वकर्वतते देवा उपाकुंशो यज्ञोस्थाप्य पश्यन्तमुपाकुंशोन्दते देवान्तानिन्द्रामे प्रादुर्यानेव तद्यजमानोतेऽन्तस्ते तथाभिृथिवीक्षमित्याहैव लोकैर्यजमानो भादुर्यानन्दद्धेते देवा न्यन्तेन्द्रो वा इदमभोद्यत्वयकृष्मैते ब्रुवन्मघवन्ननु ना भजयति सजोषा देवै न वरैः परेश्चेत्य प्रभेत्ये जेव देवाः परे येषा वरेतानुभयानन्वा भजत् सु नषा देवैरवरैः परेश्चेत्या हये जैव देवाः परे येषा वरेतानुभयानन्वा भजत् सुन्दर्यामेवघवन्मादयश्चेत्याह यज्ञादेव इदमानन्नान्दरेत्याः पानस्य धृत्ये दुभावेयां प्राणमानानय ज्ञः स्पृष्टौ तस्य साधये ध्यानेनैवास्य प्राणापानो वृच्छते यम् कामयेदर्भमायुर्यादिकसज्ञस्पृष्टौ तस्य साधये ध्यानेनैवास्य प्राणापानोतनो दसर्वमायुरेति वाग् एषा यदि इन्द्रवायवो यदि इन्द्रवायवाग्राग्रहागृह्यम् देवाश्रमेवानप्रेन्द्र वायुम् देवाब्रुवन् समघोरागोहनामेति सोऽध्रह एव वो ग्रहागृह्यान्ता इति तस्मादीन्द्रवायवाग्राग्रहागृह्यन्देदमघ्नम् सोऽयत्तं देवानोपा दृष्टवन्ते वायुम्यन्नस्वदये प्रभृतरं मृणे मध्ये वृत्याेव वस्तान्था इति तस्मान्ते तमेभ्य वायुरेवास्वदयत्तस्माते विशजन्ति वायुर्हि तस्य पितास्वदयस्य विग्रहणन्नाविन्दन् साधितप्रभृतरं मृणाथमया गृह्णे फलं मध्ये वृत्या एव वस्सो मा त्यपयाम गृहीतोसीत्याकृता देवा इन्द्रवक्रवण्यमान् तस्मादैन्द्रवायवसहकृत्य सुन्द्राय <laughs> वृद्धरा मित्रन्दे वा सोमगोराजानमेतसो प्रवीण्णाह गो सर्वस्य वा अहं मित्रमस्मि मम प्रवनः मे सोमग्रश्रेणन्नितस्मान् मैत्रावृणं वयसा श्रीणन् यतस्मात् मित्रस्ति वा एष करो दियस्सो मे न यजितस्मापक्रामं दियन्मैत्रावृणं वयसा श्रीणादि पशुभिरेव य जगागृह्याथा इति तस्मान् मैत्रावरुणस्सहकृत्य राज्ञा राजा नभवान् दिवैश्वण श्र मित्रावर्णा वब्रवन्निदन्ना विवासयन्द्रवायपूर्वो मेत्रावर्णा कृष्यते प्राणापादोपाविन्दो वा इदं नेत्रावर्णा कृष्यते युश्चे यज्ञस्य शिरोक्षित्य तदेवा अश्विनामप्रवन्विषोै यज्ञस्य शिरप्रतिधत्तमैरं वृणामहिग्रह एव नावत्रापि गृह्यतामिति गृह्णन्तौ यज्ञस्य चिरप्रत्यधत्ताश्विनो गृह्यते यज्ञस्य निष्कृत्यैतौ देवाप्रवन्नो दौवा इमो मनुष्यो ब्राह्मणेन कार्यमपो मानेन पवयित्वा ताभ्यामेतमाश्विनो गृह्णन् तस्मात् बहिष्टो माने स्तुतः निदुषा बहिष्टो मानवैपहिष्टो मान आत्मानमेवलीयं तस्मादपात्रं ब्राह्मणं समर्थकमस्य गतं भवति ब्रह्मवादुना वदन्ति एकपात्रा त्रिदेवत्या गृह्यन्ते द्विपात्रायन्ते गृह्यन्ते तस्मादेकोन्तरतः प्राणा द्विपात्रा गूयन्ते तस्मा प्रात्या पशुपतिभ्योत् पशुभ्यः प्राणानन्तरमायुपस्यात्रिदेवत्या रक्षयित्वम्पेदे प्राणादेवात्मन् धृत्वा पशो लभ्ये देवात्मा यवश्चक्षुर् मैत्रावर्णश्रोत्रमाश्विनः पुरस्तान्द्रवायवं पुरस्ता वाचान् मैत्रावृणन्दस्मा पुरस्ताक्षुषा रिक्ता निपात्राणि साधयति तस्मादरिक्तान्तरथ प्राणाय दलु वैतस्य नेरिक्ता निपात्राणि यज्ञस्य विषये रक्षताम् वपचारायक्षुक्ष्यः यदि वाच्येव वाचन्दस्य सन्दत्यै देवानां पुरोहित आसीत् षण्डामर्कावसुराणां ब्रह्मन्तो देवास्तेवन्नभिन्ते देवावत्राभिगृह्येताभ्यामेतौ शुक्रन्थिनावृहन्तो गृह्ये देव्यात्मनादुयो भवत्या जुह आदित्य शुक्रश्चन्द्रमा मन् विगुह्य प्राञ्जोरिष्क्राम तस्तस्मात्राञ्च न पश्यन्त्य पृथ्वीं च मात्युह तस्तस्मा पृथ्वीं जोयन्तो पश्यन्ति यक्षीमा एते नासिकया स्तस्मात् नासिका चक्षषे कृते पुरस्तादशरा आसन्दागस्ताभिप्राणदन्दया प्रतिपानदन्द प्राजीर्याहुदयो हयन्दे प्रत्यो शुक्रा मन्थिनो पश्चाच्चैव पुरस्ता प्रजा प्रवीयन्दे प्रतिजये त्या हिता एवं वेदात्र्यस्य प्रजापदयस्वं प्राविदं मन्थ्य ेव न वदन्ति कस्मात् सत्यान्मन्थ्यपात्रीर्यस्यादात्माच्छेत्तस्मान्नास्तु ते देवा वै यद्यज्ञे कुर्वदतदसुरागुर्वदते देवाग्रयणाग्रान् ग्रहा नवश्यन्तानगृह्णदतो वैतेषः समानानां पर्ये रक्नवत्यर्चा भ्रातुर्यस्यैव रक्नाग्रणो समानानाम् पर्ये दिये देवादिव्येकादशस्थेत्याहयितावदेव या तिष्ठमाना ते देवाशिवक्रान्तायान्तर्यन्त्यं तस्मादाग्रयणेवाग्निसृज्यते यत् तोष्णीं भूर्वे ग्रहा लुह्यन्ते यथास्यामिव्या भ्य वा संविसृज्यते त्रिभिङ्कराजिग्रदस्मा एषाभिगृह्णात्यात्मन्नेव यज्ञको सन्तनात्परिष्ठादानहितरेत एव तत् ब्रह्मवासुना वदन्ति कस्मा सत्यात्थायुक्तेकनिश्च इति षष्ठकाण्डे चतुर्थः प्रश्च समाप्तः